पर्यज्ञ सर्वभुजमेवैनं करोत्यस्कन्धाया स्कन्दकुभिकस्कन्ददित्रिः पर्यज्ञिकरो वृद्धि ज्ञातो रक्षसामपहत्यै ब्रह्मवादिना वदन्त्यन्वारभ्यः पशोरभ्या इति मृत्य देवायेन नीयते यत्पशुस्कैयदन् वारभेद प्रमायको युवर्गाय वाय लोका विनीयते यत्पशुर्विगन्नान् वारभेद सुवर्गान् लोकान् हि एतवपाश्रवणेभ्यामन् वारभदेतन्नेवान् वारब्धम् नेवानन् वारब्धमुपप्रेश्च वार होदर्हव्या देवेभेत्याहेषु वार हि कर्म यज्ञपदेत्याह यथा यजुरेवे पृथिव्याकन्दाया वर्तते श्रियं प्रपुश श्चाल्ल्वकामाय प्राच्युदानीयते यत्पत्ने नमस्ता नेत्याः नित्यस्य वेदस्मयाभ्य एव नमस्कारेत्याह भ्यातौ याभ्यादौ व्यापनत्वे घृतस्य तुल्यामनु प्रयश्वस्तापो देवे य वयक्हयसाय तु एवैतत् र्वारब्धस्य <us> <us> प्राणान् सुगृच्छ विवाक्तायदाम् प्राणस्ताप्यायदामित्या प्राणे वास्य जगम् शमयति सा प्राणे पृथिवेगुशु प्रविशति समहो माभ्यामि जनयब्दहोरात्राभ्यामेव सर्वे सुजगु शमयत्य प्रायस्मै न ग्रस्पसि च मयिनगं हि आच्चनिमध्यलो हिमनुष्या आच्यन्द्यजनस्येन वाच्यत्रिणो चे हिमनुष्या आच्यन्द्यव्यावृत्तेरक्षसाम् भागो धीकृतो बहिरत्वापास्यत्तस्मै वक्षागं हि जनवदयतमागौ रक्षो धमन्तमो नयामि योस्मान् वेष्टियं च भयं जष्मयत्या हद्धौ भावपुरुषो यञ्चैवद्वैष्टियश्चेणयदेशे स्या वा पृथिवेत्या हद्या वा पृथिवीवृतेन रायः सुवेर इत्याह यथा भवानेतत्करोति यद्भवा मुक्षित्तुर्वमन्वेत्या लोकाच्च वदेयः पशुर्मृत्यवे नीयमानमं वारभदेव पुनरन्वारभदेस्मिन्नेव लोके प्रतिष्ठत्यज्ञा पुरस्ता देशामहत्या अथो देवता एव हीलान् हरे त्रिदन्तमङ्गारमति हरे देवता अधिमन्ये दवायो वेहश्लोकानामित्याहरस्मान् स्तोका अवपद्यन्ते ग्रह्वा एतत्पशूनां यत् न वा स्वाहोद् मारुतम् गच्छदमित्याहोद्वे मारुतो श्रवणे प्रहरति देनैवेन प्रहरति विशोदे प्रहरतितस्माद्विष्पञ्चौ प्राणापानौ भ्यपुरोडाशन्दपदितमे समेव न मालफले प्रतर्य पुरोडाशेण प्रचक्त्योर्ध्वे पुरोडाशोर्जमेव पशूनाशोरेव छिद्रमपि दशाहत्य पृच्छति शतमु भवेत्या प्राणापानौ मासूना यत्प्राज्यं पशुवाज्येनैव भविष्यन्ते यत्प्रक्षसा भैव पशोरव ये क्रियमाणस्य हरति रक्षसामेवये हविषोस्यानुब्रोहेत्याहमनगे वास्यावरुन्ध एकादशापदानान्यवर्गशमेव प्राणा आत्मैकादशो यामानेवस्यापद्यते हृदयस्याग्रेवत्य यद्वेणाभिगच्छति तज्जिपया मदति यद् जिवया मदति यथा पूर्वै यस्यैवमपदाय यथा काममुत्तरे कामभद्यति यथा पूर्वमेवास्य वसो नवत्तं भवति मध्यतो गुरस्यावद्यति मध्यतो हि प्राणमुत्तमस्यावद्यत्युत्तमो हि प्राणो यदीतल्यतीतलमुभयमेवाजामिनो वेवाजाय यज्ञैलदेवेभ्यः प्रजया पितृभ्ययैलवालनो यः पुत्रे यज्वा ब्रह्मजानि वादे तदपदाने देवावदयते तदपदानामपदाश्चे देवा अग्निमब्रवन्तया वीरेणासुरानवामेद्धरायि निधरे त्यङ्गानागम्भ्रातुर्व्यादिभोत्ये भवत्यात्ममापनास्य भ्रातुर्व्या भवत्यक्षणया वद्यते तस्मादक्षणया पशवाङ्गानि प्रहरन्नि प्रतिष्ठित्य प्रोर्णाति वेदोपा वे पशवारूपमेव अशुरदधाति योषं नमसाय प्रोर्णोदिरसोमायेषपशोनाय यद्यो रथमेव अशुरदधादि पार्श्वे नमसा होमम् प्रयोजि मध्यं मा एदत्पशोनान्यत्पार्श्वगोरथ एष पशोनाय यद्वसायपार्श्वे नवसा होमम् प्रयोजि मध्यथ एव पशूना गोपन्दसा निध्यन्ति खलु मे देवतया प्राण ऐन्द्र बाण ऐन्द्र प्राणो अङ्गे अङ्गे निधेय देत्याः प्राण बाण देवतः देव ृत्या हत्वाष्ट्राहि देवतया विशुलोपायस्वलक्ष्माणा भवचेत्याः विशुलोपालक्ष्माणनेकैः भवन्ति देवत्रायन्तमवचेतखायो नत्वा मातापितरामनन्वित्याहानुमतमेवैनं गङ्गयत्येवत्येव समवन्धे प्राणापानौ वा एतोपशोनान्यत्कृतराज्यम् वा नस्पत्याः खलु वै देवतया पशुभो यत्कृषदाज्ञस्योपहत्या हवनस्पतयणो हि वनस्पतय वैश्वेरि प्राणापाना वेम पशुन तथा चन्यस्याम् समवद्य निरस्पान्नारूपाः पशुवो पशुषधारिणा उपक्वयदे पशवो वायिणा पशुनेवोपक्वयते चतुर्पक्वयदे चतुष्पादो हि पशवोता पशुस्यादित्यमेदस्कन्दस्मादध्यासवो रूपेण पशुभ्यो दुर्भजत्त पशुरेव भवजयं कामजेत पशुमान् शालिजमेधस्वत्तस्माहादध्यान् वेदोरूपा वै पशवो रूपेण पशूनवरुन्धे पशुमानेव भव पुनश्च प्रणधाजम् पश्चात्तस्मादार्जेन पशूनान्यषदाज्यं यत्पृषदा जनादो याजानि यजय प्राणापानावेव पशुषतसागे ॐ यज्ञ प्रजापलि प्रजा असृजता प्रजा प्रजायन्ते संभ्यन्दन्यवद्य प्राणामसंभ्येदायन पर्यावर्तय रे्यावर्तये असुदावर्तः प्रजाग्राहुकस्यात् समुद्रं गच्छ स्वाहेत्या हरेत हेम न्तरिक्षं गच्छ स्माहेत्याह अन्तरिक्षे नैवास्मै प्रजा प्रजनयत्यन्तरिक्ष्य प्रजा प्रजायन्ते देवगोश वितारं गच्छ स्माहेत्याह चमै प्रजा प्रजनयत्यहो रात्रे गच्छस्माहेत्याहोरात्राभ्यामेवास्मै प्रजा प्रजनयत्यः रात्रे कल प्रजा प्रजायन्दे मित्रावरुणो गच्छस्म स्वामहेत्याः प्रजास्वे प्रजा दालु प्राणपाणोधामं गच्छस्वाहेत्याः सौम्याहे मया प्रजायज्ञं गच्छ स्वाहेत्याः प्रजायेव यज्ञया करोति सन्त्रागं च ो दैवावरुन्धे वा पृथिवे गच्छस्वाहेत्याः प्रजा एव प्रजाता वा पृथिवे परिग्रन्था जनभो दिव्यम् गच्छस्वाहेत्याः प्रजाभ्येव प्रजाताभ्यो वृष्टिर्निम् वयेष्वा नरम् गच्छस्वाहेत्याः प्रजा एव प्रजाता अस्याम् प्रतिष्ठापयति प्राणानाम् वागेषो वद्य त्रियो वद्यति कृतस्य मनोमेहात् यच्चेत्याः प्राणाने वयथा स्थानमपह्यते पशोर्वालब्धस्य हृदय गोक्षयसा हृदयसोनमभिनवेद यत् पृथिव्यागो हृदयसोनमद्वासये पृथिवेनो शुचात्मये शुचात्मये शुष्कस्य चात्रश्च संधानद्वासयत् उभयश्च शान्ते यन्धश्चास्कन्ध्यायच्छुतेन मत्पयति क्तशिष्ट्रुवन्वसरुण इदमणि सर्वसदेवरेणां वसदेव हितं तस्मिन् प्रातम् न समशक्वन्तयन्तामस देवरे ने ग्रन्था यज्ञोरे वसदेवरे यज्ञमेवारभ्य गृहेत्वापवसरे यस्या गृहेताभिनिम्रो चेतनारब्धोऽम् विच्छिन्नाज्यो निश्चामः गृह्णेयाध्यण्यम् वा पथा गृहसुत्राणामेव ग्रन्था ब्राह्मणो बहुयाजेयस्य कुम्भ्यानाम् गृह्णेयापस देवरे को वस देवरे ग्रह्णादि पशवो वे वसदेवरेचो नैवार्भ्यगृहे कोपोषेदन् वे पन्तुष्ठम् गृह्णेयुहास्मा पशवश्च प्रदे पन्तुष्ठम् ग्रन्थादि मः स ृगदता साध्यं सदेव गृह्णादया एवमेव गृह्णादीनां तवा वहन्ते रदीया गृहं तवा वहन्ते रदीया यज्ञवधिमन्ये धनस्थापराणा गरुणगृहे दास्थावराय स्थाने भवत्यपोहाविशय विवासदृशे भवत्यपोहः प्रविशयितस्माचो नक्तं दर्शे छागाणि चादपदस्य गन्धो ग्रन्थात्यः वर्णं ग्रन्हादि हविष्पदेरिवा आमयत्याः हविष्कृतानामेव ग्रन्थादि हविष्मानुत्याः शुक्राणामेव ग्रन्थात्यष्टम् ष्टग् यच्चार सप्तदम्पद्यन्ते सप्तपदाषत्पदे पशुपश्चेत्यैव लोकाय गार्गवत्याधीयते पुष्णाहवणीयो यद्गार्गवत्यमुपसादये तस्मिन् लोके पशुपां स्याच्यदाहवीय पुष्णं लोकेऽपशुभां स्यादुभयोपसादयत् विभयो हैवैनं लोकया मन्द्रं करोति सर्वदः परिहर जनकदाहत्या इन्द्राग्निपवासय जयदस्यापराजनाग्नेः भङ्गदेव यज्ञस्यापराजदन्तदेवै न उपवासय जयदः खलु वे यज्ञ नो रक्षाकस्य वदन दियद्वहन्तीनां जन्हादि क्रियमाणमेव यज्ञस्य ायण्यै नारेण यन् चादरीय सः परिध्यायैक्यस्य सन्तत्वे ब्रह्मवादिना वदन्ति सत्ताध्वर्यस्याज्ञ स्वामोपावहरन् सर्वाभ्यो देवताभ्योपावहयत्वेन ्याह पितृभ्य वेदेन करोतिभ्य एव त्येव यज्ञमेवाभिवाचन्दान्वाहपोन्दावरुन्धे गायत्र्यायजस्कामस्य परिदध्यात् पृष्टुभे निजगामस्य जगत्या पशुकामस्यानुष्ठुभाः प्रृष्ठा कामस्य पञ्चायज्ञकामस्य विराजा त्याहसूदेव्यापोच्छै त्याः वेदानिष्टेय ग्रन्था हविकृतानामेवतानाम् समुद्रस्यैत्याह तस्माद्यानः ीयमान आपो न क्षीयन्ते यो जग् मे यज्ञस्य चात्वा वे लमा त्याहोदमनम् नृतमाः पश्य दिवामे ददाहयद्यज्ञष्टो मो जुहोदयद्युद्धःपर्घो निवायज्ञात्रौ जर्मसम् प्रपद्यते यज्ञो नाम् यावत् देवस्य दाशमिदः प्रथमै निग्रामानवादत्ते दा प्रसो बाहुभ्यामित्याह त्याहयते पशवो वे सोम ज्ञानगुपाकम् शुसमनो यदुपाकम् शुसवनमभिमे ज्ञानमेव वसुदसधातेन्द्रायत्वेन्द्रायत्वे जि मिमेन्द्रायि सोमः क्रियते पञ्चगत्वा यदिषामिमे जय पञ्चाक्षरा स्वात्माक्षोमज विद्योभ्य एवमो वेनाचार्यो न प्राविशत् प्रागपाकुदकरात्याह्य एवंसम्भरत्य मुकायेन भवन्ति एवम् वेदयिपगृह्णादिनरपि सजति प्राणानेव यतु पाकौ शरयतु पाकस्वग्राग्रहायत्र प्रागस्वमेवा यज्ञगौरगस्थापयामि द्रष्टो गत्वा दष्टाक्षरा गायत्रे गायत्रम् प्रागस्तवनम् प्रातस्तवनमेव तेना एकादश कृत्वा द्वितीयमेकादशाक्षरा दृष्टप्र माभ्यञ्जनकौ समनं माभ्यञ्जनमेव समनन्देनाद्वादशर्तस्तृदीयं द्वादशाक्षराजगीरागनन्दनीय समनन्ददीयसमनेवश्च दिववाच स्कन्दाय स्कन्दकौ हिरस्य स्कन्दच्च स्वानं वाहु गायत्रीस्तवलेन प्रातं ष्टावष्टौ कृत्वाभिनष्ट्यं ब्रह्मपालिना वदन्ति पवित्रवन्तोन्यत्र युधिपदयति कृष्णुंशभ्यामित्याह कृष्णोदांशो यौ सोमस्य गभस्ति बोधयत्याह गभस्तिनात्यैनं पवयति देवो देवानाम् पवित्रमसीत्याह देवो देशं देवानाम् पवित्रयम् भागोजय ह्यस्तेत्याहजयश्चागस्तेभ्यजयन् गृह्णाय स्वाङ्कृतो स्वास्मदये विश्वेभ्यस्तेन्द्रयेभ्यःपाच्य भेत्याहो भेव देव मनुष्ठे प्राणान्श्रदमन्विहेत्याः प्राणस्वाहात्याः प्राणास्तेश्वक्षं जुहोभ्यस्तावरे जिवेदयो देवावरे जिवास्ते यन्तानेव देन प्रेमा निगति कामये न वृषग पञ्चमन्यश्चालिलिताहस्ते नृमृद्याव नियच्छ निगदि कामये तावरुषकस्यादित्युत्ताद ृद्ध्या दृष्टिमेवात्यच्छति यद्यभिजरे न सत्पाहो ब्रो जाहुतिरेवनम् स न हन्ते यदि दूरे स्यादातमिदोऽस्तिष्ठ प्राणमेवास्यानुगत्यहन्ति यद्यभिजरे नमुष्यत्वा प्राणे सालयामि नोमे प्राणः प्राणमेवास्य सा जयत्पातवरभिरेवेण परयणित्र पलयित्रे नोकालेभिरेवनं नोमे वैदि ब्रह्मपादिना वदन्ति यस्मात् सत्याः त्रयःपशोनागम् हस्तादायत्रिपाल हस्तेन विगन्धा त्रयःपशोनागम् हस्तादा पूर्णो हस्ते देवाने यज्ञे कुर्वदुपा कुर्वदते देवा उपागुंसौ यज्ञगुंसग्रस्ताप्यमास्यन्तरौ पागुंसौ संस्थापयन्ते सुरावत्र देवानभ्यायन्त देवाभ्यज इन्द्रौतारिन्द्रान्तर्यामेनान्तरधन्तर्यामस्यादन्तर् यावभ्यातव्यायमाहान्तर्धत्ते तथा विद्यावान्तरुपन्तरिक्ष मित्याहैलोकेन्दत्ते देवामञ्जन्तेन्द्रोमागितमभोद्यद्भयज्ञस्मै कृतेभरे देवेन वरे परैश्चेत्त प्रवेद्य देवदेवाः परे गेदावरेतानुभयानन्वा भयत्सोषा देवेन वरे परेश्चेत्याभये देवदेवाः परे गेदावरेतानुभयानन्वा भयत्यन्दर्याय मघवन्मानय ेप्याह यज्ञानेव यजमानन्नान्तरे रामपानो निर्मिच्छेत् प्रमायकस्यावित्र प्राणापानयो बाणापानो वागस्वन्दर्यामो ज्ञानवशतमनोऽयम् कामयेन प्रमायकस्या स्पृष्टौ तस्य धादये ज्ञानेनैवास्य प्राणापानो मिक्षाय क्रमेय दे गण्टामये ज्ञानेन प्राणापानो सन्तनो निर्भमाय जय वाग्यधे इन्द्रवायवो यधे इन्द्रवायवाय त्यम् देवागमेवानुप्रयन्ति वायुम् देवाब्रुभान् स्वमयौ राजा नयो ब्रभे परम् वृणेमदग्रा एव वाग्रहा नित्यान्दायुलितस्मादेन्द्रवायवाग्राग्रहा नित्यम् देवमद्भ्यान् स्वभो यत्तम् देवायो वायुमब्रवर्ण्यवे परम् वृणेमद्देवत्यान्दायुलितस्मात् त्यानि सन्ति वायुव्या नित्यन्त वायुदेवास्पदयत्यस्माद्यद्भूयप्रभात विषयन्ति वायुज सर्वस्पदयितादस्य विग्रहणं नाविन्द्रान् सानिरम्ब्रमेद्वनं वृणासमया विगृह्णेध्वं मध्येवत्या एव सोमा सन्नासंहेत्यानि पात्रा स्मादेव्याकृता देवा इन्द्रमब्रमण्यमान्द्रवाचुर्वे ब्रह्म चैवैष वायवेन सह युक्त्यास्मादेन्द्र वागवस्सह यदेतामिन्द्रामध्यदो भक्रम् ह्यव्याकर तस्मादयम् व्याघृता वागुद्यने तस्मा सकृदिन्द्राय मध्य दुर्भागवेद् बहु समदावर्णेता मित्रम् दैवाभ्रुवान् सोमगौ राजा सर्वस्य वा अहम् मित्रमस्ते लिलो भ्रुवनहना वैवेदोहम् ब्रमे नरम् ऋणे पयसैव मे सोमज्ञश्रेणम् जलितस्माहम् मैत्रावरुणम् पयसा श्रेणम् पशुभ्यजमानम् पुरा खलु मामेव मित्रा वेदपोरं चक्रुढः पशवक्रमिष्यं केतस्तादेवरं वृणेभक्यञ्चैष मित्राय च सहकृत्यायि तस्मात्रावर्णः सह ृत्यने तस्मात्राज्ञा राजा नवंशभुवाैश्य न वैश्यकं शोद्रेण शोद्रन्न वा हिदन्द्यवक्तमासे दव्यावरुतन्द्रेण देवा मैत्रावरुणावब्रुवं हिदण्ड विमासयमिलितावब्रूतां परमृणामहायैकदेवावत्तोग्रहो विख्यातायनि तस्मादीन्द्रवाजव मैत्रावरुणादे प्राणापालोख्य यदपा विस्वन्दनयामो मित्रो हरजनयद्वरुणो वाक्तम् जलो वायुदम् योच्छन्मेत्रावरुणो निर्त्यने यज्ञस्य शिरोच्छिद्यते देवाश्विनावब्रुवन्भिटजो वैष्ठस्य शिरः प्रतिषत्तमब्रोधा वरं वृणामहे एव नामत्राभि यज्ञस्य शिरः प्रत्यधत्ताञ्जराश्वि यज्ञस्य निष्केतौ न कार्यमपोतो ह्ये येषो मेद्भ्यभिरक्तो बहिष्पवमानेन पवगिन्ता कार्ध्या वेदमाश्च तव गृह्णन्तस्माद् बहिस्पवमाने तस्मादेवं विदुषाभैष्पव मानमुपसत्यः पवित्रम् वेदैष्पमान आत्मानमेव पात्रमुपनिधाय ब्राह्मणम् दक्षिणतोभेषजम् कुर्याद्यापदेव भेषजम् तेन करोति समर्थगमस्य कृतं भवति ब्रह्मपारिनावसन्धिकस्मादेकपात्राद्य ृत्यन्ते मात्रा भूयन्ते यदि यदेकपात्रा नित्यन्ते तस्मादेको विमात्रा हूयन्ते तस्माद्भौ द्वौ गिष्टा प्राणा प्राणावाघेते यद्विदेवत्या पशवैढायदि पूर्वान्द्रिदेवत्तेभ्यक्वगेत पशुभिः प्राणानन्तर्वायकस्याद्विदेवत्यां भक्षय त्रे नाम प्राणामेव त्मम् भित्त्वा पशो न भक्पयदेवाग्न्द्रवायवश्चक्ष मेत्रावर्णश्रोत्रमासिणः पुरस्तान् मैत्रा तस्मात् पुरस्ताच्चक्षुषा पश्यति सर्वदः परिहारमाश्विणोलि प्राणामाघेभ्या अक्तानि पात्राणि धाजय च तस्मात्तान्तर प्राणाय रै यज्ञाश्च पात्राणि धालयि क्रियमाणमेव नन्नवचाराणि दक्षिणस्य विधानस्योत्तरस्याम् वर्तन्या किंसादयति वाच्येव वाचम् तथा जातिरीयशमनाग् परिशेल यज्ञस्य बृहस्पतिर्देवाना पुरोहिलासेच्छण्डावर्कावसुरानाम् बृह्मन्वन्तो देवासन् बृम्भन् वृन्तोऽसुरास्ते येन छण्डावर्का उपामन्द्रयन्त्य तावभ्रूताम् वरं वृणाम हैग्रहावेव नावत्रापि गृह्येताविधाभ्यामेतौ शुक्रा मन्थिणावगृण्ठन्ततो देवा अभवन्वरासुरायस्यैवं विजुडश्च शुक्रा मन्त्रिणौ नित्येन भवत्यात्मना परा शब्दानुजा देवा पुनद्यात्मन इन्द्रायाजुह वरमणत्तौ षण्डामर्तौ सहामुने विप्रोजाद्वेष्टिनौ सहा पुनदय प्रथम सङ्कटेन विश्वकर्मे देवैनावात्मन इन्द्रायाजुह वरिन्द्रेतानि रूपानि करिक्रदश तोरा नित्य शुक्रश्चन्द्रमा मञ्च स्पात् प्रायन्तो नपश्यन्ति प्रत्यञ्जाभाव्यन्ति चक्षुषे वा शुक्रामंसिनो नासिगोत्तरवेदनभिदः परिक्रम्यजुहुदस्तस्पादभिधो नासिकाञ्चक्षुषे तस्मान्नासिकया चक्षुषेक्रामदो रक्षसामपहे देवामेया प्राजेराहुदे पश्चादसरा आसन्तागस्ताभिरबाणदन्त पराजेरन्याहृदय भूयन्ते प्रत्यञ्च शुक्रामन्थिनौ पश्चाच्चैव पुरस्ताच्चन् प्रणतस्मात् पराजे प्रजा प्रवेयन्ते प्रदेजे जायन्ते शुक्रावन्थिनौ वा न प्रजाः प्रजायन्ते त्रेश्चाद्यास्त सुवीराः प्रजाः शुक्र शुक्रजो प्रजा प्रजा प्रदनयन् परे हि मन्त्रि मन्त्रि सोत्याहैतावेषु राजा अत्रे रतास्व प्रजायां वेदाज्ञश्च प्रजागागे प्रचयत्तत्परामदत्तद्भिकङ्कदं प्राविशत्तद्भिकङ्कते नारमद तद्यवं प्राविशत्तद्यवैरमद्यवस्तयङ्कं मङ्कुपात्रं भवति भक्तभिश्वेणाधि प्रजापदय चक्षुस्सम्भरति ब्रह्मभाजि न वदन्ति कस्मात् सत्यान् मन्सि पात्रयौ सलोलाच्छुदयित्या पात्रयौ हेति प्रोढाम् विनष्टवेदान्धा धैर्यस्यादार्ज्यमार्चेत् तस्मान्नाश्रु देवा वै यद्यज्ञे कुर्वदसुरा कुर्वदने देवाः न्तानग्रन्थलभेदैग्रं पर्यागलयस्यैवं विविधा चैग्रे पर्येदर्ग्रवच्छाभ्याद्रव्यपद्रन्थेयाभ्यादृतस्यैव पर्ये ये देवादिव्यश्चेत्याहैतावदेस्ताभ्ये मेन सर्वाभ्यो ग्रन्थाच्य श्वेरभ्यस्त्वा देवैर्भ्यत्या हवेष्वेवतया वाग्े शोमाक्रामद्विज्ञाया लापलात् सामेत्युपावधृत्यैव नैव गृहेत्वा यज्ञमारभ्यवाजं विसृ नेत्रहित्युद्गात्रैव प्रजापद्रायेण यदा क्रयणो यदा ग्रयणं गृहेत्वाहिं करो प्रजापद नैवदत्वजाभिषेक्भ्यस्मात् दत्सञ्जातं घोरभिषेभ्यत्यात्पावायण यज्ञस्य यदा क्रयण समले समनेभिगृह्णात्या यज्ञः त्रिपरिष्टादालय जलेतज एव दद्यथापगृह्णाधिप्रजलयत्येव तद्ब्रह्मवादिना वदन्ति कस्मा चर्त्याद्गायत्रैकनिष्ठा छन्दसायुम्भरी सर्वाणि सवनानि वहले केशवै गायत्र्यैव कैस्कमेव दलभित्रयम् सर्वाणि सवनानि वहलिकस्माद्वपाकृतम्भ्योरभिरिवर्तते One, two, इन्द्रो वत्राय वज्रमुदयच्छत्स वन्त्रो वज्रा दुज्यदाद बृहेच्छ प्रहारस्ति वा इदम् वयि वीर्यम् दत्त प्रदास्यामे जिरस्वा वृक्षम् प्रायच्छत्तस्मै द्वितीयमुदयच्छत्सः ब्रवेण्मा मे प्रहारस्ति वा इदम् वयि वीर्यम् दत्ते प्रदास्यामे जलस्वा वृक्षमेव प्रवेन्मा मे प्रहारस्ति वा इदम् वै वेर्यम् दत्त प्रदास्यामे जदस्मावुक्षमेव प्रायच्छत्तन्यर्मायम् भूतव हरे ज्ञोहितस्य मायासे तदुच्छाविद इन्द्रियमेव तद्धेर्यं यजमाला ध्यालव्यस्य वृन्द इन्द्राय प्रायद्मदेव यस्पदेत्याहेन्द्राय हेश्वरम् प्रायच्छत्तस्मै प्राविष्टवेत्याहय देव ञन्तं जिदस्मादेको बहूनां भद्रभव जिरस्मादेको भक्ष्मेर्जायाविन्दामयेत्मान सेनार्पय यमित्यन्दराहवनीयम् च ह्दानम् तिष्ठम् न वनयेणमेव यज्ञयससेनार्पय जिगरिकामय धीयमानम् यज्ञयसेनार्पय यमित्यन्दरासदोभवद्धानेन जलमानमेव यज्ञयससेनार्पय जिगरिकामय जस्यान् यज्ञसेनार्पय यमिति सदा आलभ्यामनये तस्यानेव यज्ञयसेनार्पयति आयुर्वागेतज्ञस्य यद्ध ध्रुवमुत्तमो ग्रहाणाम् गृह्य नेतस्मादायः प्राणानामुत्तमम् मोर्धानम् दिव अर्जिम् पथिव्या इत्याहमोर्धानमेव वैनपुंसमानानाङ्ग्वानपदायज्ञमित्याह वैश्वानरौ हि देवतयायुर्भयदा वैश्वानरोह्य नेतस्माद्भयदः प्राणाधस्तापरिष्टान्वे ग्रहानित्यञ स्तस्मा लभ्यमान् प्राणो प्राणा नामोक्ते गृहासाध्यन् ध्रुवस्तस्माद्रा ध्रुवेणा द्रूहन्त ध्रुवश्च ध्रुवक्तत्मा होतायद्ध्रुवनयत्यात्मन्नेव यज्ञस्यायुरस्तादुक्तस्याः पुरस्ताध्यायुषो भुङ्क्ते मणिरित्याहृ मध्यमेन मणिरित्याहृज्ञाविड भुङ्के भेश्वदेव्याभिहस्यमानाय पवनै जेश्वदेव्यो भै प्रजास् प्रजाय दधाति यज्ञै न मे देवास्वर्गम् लागवायम् जय न्दान्दा भविष्यन्ते संवत्सरेण योपयित्ता सुवर्गन्दागमायन्दृषयदुर्ग्रहे देवानुप्राजानयदुर्ग्रहा नित्यं जय सुवर्गस्य राजस्य प्रज्ञा द्वादश नित्यं दे द्वादश मासा प्रज्ञा प्रथमो नित्येते सहोत्तमो तस्माद्वौ द्वाहृतोमुखमृतभात्रम् भवति गो हिरव्यो नाम् ृदना प्रेष्य ऋषट् चर्त्वा हषद्वातवर्दो नेव प्रीणा कृतभि पशोन् प्रीणादिद्युः पुनर्हद्विपदगेव प्रीणा कृदना स्य प्रसिद्धमेवर्यिणेण प्रपद्यते प्रसिद्धम् प्रस्तादोत्तरेण मासो दक्षिणेन षदुत्तरेण वयामृजीतोस्ति त्रयोदशो मास इत्या हस्तमेव ीणाति स्वर्गाय वा य लोकाय कृत्यम् देसग्राज्यो चेन्द्राग्नेयलेन्द्राज्ञात्रेण गृह्णादि ज्योतिदेवास्पा उपरिष्टाधारिवर्गस्थ लोकस्यालख्यात्यावो जो भृजो वा यो देवानागीन्द्राग्यनयेन्द्रा नित्य नमोदरे मा वरुश्वरेव शुक्रवात्रेण गन्धाय वैश्वरेव्यो वे प्रजा असामादित्य शुक्रो यद्वैश्वरेव शुक्रमात्रेण गृह्णाजितस्मादसामादित्यः सर्वा प्रजाप्रत्यङ्गुरे जितः सर्व एव मन्यदे मां प्रत्युदगालिवेश्वरेवगो शुक्रमात्रेण गृह्णाय वैश्वरे व्यो वे प्रजास्त्रेण शुक्रो यद्वैवेश्वरेवगो शुक्लपात्रेण गृह्णाति प्रजा सेव तेनो दधाति